युद्धकाण्डं सर्गम् इलवन् श्रीमहादेव उवाच इत्युक्त्वा वचनं प्रेम्णा राज्ञीं मन्दोदरीं तदा रावणः प्रययौ योद्धुं रामेण सहसंयुगे दृढं स्यन्दनमास्ताय वृतोघोरैर्निशाचरैः चक्रैषोडशभिर्युक्तं सवरूधं सकूबरं पिशाचवदनैर्खोर्हरैर्युक्तम् भयावहं सर्वास्त्रशस्त्रसहितं सर्वोपस्करसंयुतं निश्चक्रमाधसहसा रावणो भीषणाकृतिः आयान्तं रावणं दृष्ट्वा भीषणं रणकर्कषं सन्द्रस्ता भूत्तदा सेना वानरी रामपालिता हनुमानथ चोत्प्लुत्य रावणं योद्धुमाययौ आगत्य हनुमान् रक्षो वक्षस्य अतुलविक्रमः मुष्टिबन्धं दृढं बद्ध्वा ताडयामासवेगदः तेन मुष्टिप्रहारेण जानुभ्यामपतद्रथे मूर्च्छितोधमुहूर्तेन रावणः पुनरुद्धितः उवाच च हनुमन्दं शूरोऽसि मम सम्मतः हनुमानाहतं धिमां यस्त्वं जीवसि रावण त्वं तावन्मुष्टिना वक्षो मम ताडय रावण पश्चान्मया हतप्राणान् मोक्ष्य सेन्नात्र संशयः तथेति मुष्टिना वक्षो रावणेनापि ताडितः विखूर्णमाननयनः किञ्चित् कश्मलमायययौ सञ्ज्ञामवाप्यकपिराड्रावणं हन्तुमुद्यतः तदोऽन्यत्र गदो भीत्या रावणो राक्षसाधिपः हनुमानं गदश्चैव नलो नीलस्तथैव चत्वारसमवेत्याग्रे दृष्ट्वा राक्षसपुङ्गवान् अग्निवर्णं तथा सर्प रोमाणं तथा वृच्छिकरो माणं निर्जघमु क्रमशोऽसुरान् राक्षसान् भीमविक्रमान् सिंहनादं पृथक् कृत्वा रामपार्श्वमुपागदाः तदक्रुद्धो दशग्रीवसन्दश्य दशनच्छदम् विवृत्य क्रूरो राम मे वान्वधावदशग्रीवो रथस्तस्तु रामं वज्रोपमैः शरैः आजखानमहाकोरैर्धाराभिरिवतो यदः रामस्य पुरदः विव्यधे ततः पावकसङ्काश्यै शरैः काञ्चनभूषणैः अभ्यवर्षद्रणे रामो दशग्रीवं समाहितः रथस्थं रावणं दृष्ट्वा भूमिष्ठं रघुनन्दनम् आहूय मादलिं चक्रो वचनं चेदमब्रवीद मम भूयिष्टं शीघ्रं याहि रघोत्तमं त्वरितं भूदलं गत्वा कुरु कार्यं ममानख एवमुक्तो तं नत्वा मातलिर्देवसारथिः तदो हयैश्च संयोज्य हरितैः स्यन्तनोत्तमं स्वर्गाज जयार्थं रामस्य ह्युपचक्रा म मातलिः प्राञ्जलिर्देवराजेन प्रेषितोऽस्मि रघोत्तम रथोऽयं देवराजस्य विजयाय प्रभो प्रेषितश्च महाराज धनुरैन्द्रं च भूषितम् अभेद्यं कवचं खड्गं दिवि तूणियुगं तथा आरुह्य च रथं राम रावणं जहित्राक्षसम् मया देवा वृत्रं देव देवपतिर्यथा इत्युक्तस्तं परिक्रम्य नमस्कृत्य रथोत्तमम् आरुरोह रथं रामो लोकान् लक्ष्म्यान् नियोजयन् तदो भवन्महायुद्धं भैरवं रोमहर्षणं महात्मनो राघवस्य रावणस्य च धीमतः आग्नेयेन च आग्नेयं दैवं दैवेन राखवः अस्त्रं राक्षसराजस्य जकान जखानपरमास्त्रविद ततस्तु ससृजेखोरं राक्षसं चास्त्रमस्त्रविद क्रोधेन महदाविष्टो रामस्योपरि रावणः रावणस्य धनुर्मुक्ता सर्पा भूत्वा महाविशाः शरा काञ्चनपुङ्खाभा राघवं परितोपदन् तैः शरैः सर्पवदनायर्वमद्भिरनलं मुखैः दिशश्च विदिषश्चैव व्याप्तास्तत्र तदाभवन् रामः सर्पांस्तदो दृष्ट्वा समन्तात् परिपूजितान् सौपर्णमस्त्रं तत्घोरं पुरःप्रावर्तयद्रणे रामेण मुक्तास्ते बाणा भूत्वा गरुडरूपिणः चिच्चिदुत्सर्पबाणां स्तान् समन्तात्सर्पशत्रवः अस्त्रे प्रतिहदे युद्धे रामेण अभ्यवर्षत अभ्यवर्षत्तदो रामं होराभिः शरवृष्टिभिः ततः पुनः शराणीकै राममक्लिष्टकारिणम् अर्दयित्वा दुघोरेण मातलिं प्रत्यविध्यद पादयित्वा रथोपस्थे रथकेतुं च काञ्चनम् ऐन्द्रा न श्वानभ्यहनद्रावणक्रोधमूर्च्छिदः विषे दुर्दैव गन्धर्वाश्चारणाः पितरस्तथा आर्ताकारं हरिं दृष्ट्वा व्यथिताश्च महर्षयः व्यथिदा वानरेन्द्राश्च बभूवुत्सविभीषणाः दशास्यो विंशतिभुजः प्रगृही दशरासनः ददृशे रावणस्तत्र मैनाग इव पर्वतः रामस्तु भ्रुपुडिं बद्ध्वा क्रोधसंरक्तलोचनः कोपं चकारसदृशं निर्दहन्निवराक्षसं धनुरादाय देवेन्द्र धनुराकारमद्भुतं गृहीत्वा पणिना बाणम् कालानलसमप्रभं निर्दहन्निव चक्षुर्भ्यां ददृशे रिपुमन्दिके पराक्रमं दर्शयितुं तेजः सा प्रज्वलन्निव प्रचक्रमे कलरूपी सर्वलोकस्य पश्यतः विकृष्य चापं रामस्तु रावणम् प्रतिविध्य च हर्षयन् वानरानीकं कालान्तकयिवाबभौ क्रुद्धं रामस्य वदनं दृष्ट्वा शत्रुं प्रधावदः तत्र सुस्सर्वभूतानि चचाल च चा, वसुन्धरामं दृष्ट्वा महारौद्रमुत्पादांश्च सुदारुणान् त्रस्तानि सर्वभूतानि रावणं चाविशद्भयं विमानस्तासुरगणासिद्धगन्धर्वकिन्नराः ददृश्युत्सुमहायुद्धं लोकसंवर्तकोपमम् ऐन्द्रमस्त्रं समादाय रावणस्य शिरोच्छिनद मूर्धानो तालादिव न ूर्धनो रावण सहवो रुधिता न स्म काला फला नीनमैरात्रिध्याशि तद्रूपं नद्रूपमं तत्र संगरे। तदो रामो बभूवाद विस्मयाविष्टमानसः शतमेकोत्तरं छिन्नं शिरसां चैकवर्चसां न चैव रावणशान्दो दृश्यते जीवितक्षयाद तद सर्वास्त्र तदसर्वास्त्रविद्धिरकौसल्यानन्दवर्धनः अस्त्रैश्च बहुभिर्युक्तश्चिन्तयामास राघवः यैर्यैर्बाणैर्फदा दैत्या महासत्त्वपराक्रमाः स एते निष्फलं यादा रावणस्य निपातने यदि चिन्ताकुले रामे समीपस्थो उवाच राघवं वाक्यं ब्रह्मदत्तवरोह्यसौ विच्छिन्ना बाहवोप्यस्य विच्छिन्नानि शिरांसि च उत्पत्स्यन्ति पुनः शीघ्रमित्याह भगवानजः नाभिदेशे मृदं तस्य कुण्डलाकारसंस्थितं तच्चोषयानलास्त्रेण तस्य मृत्युस्तदो भवेद् विभीषणवच श्रुत्वा रामशीघ्रपराक्रमः पावकास्त्रेण संयोज्य नाभिं विव्याधरक्षसः अनन्तरं च चिच्छेद शिरांसि च महाबलः बाहूनपि च संरब्धो रावणस्य रघोत्तमः तदो खोरां महाशक्रिमादाय दशकन्धरः विभीषणवधार्थाय चिक्षेपक्रोधविह्वलः चिच्छेदराघवो बाणैस्तां सितैर्हेमभूषितैः दश्रीवशिश्चेता तेजो विर्गम यालान रो बभूवाथ चिन्हई शीर्षाइर्भय मुख्यशिस रावणो बभ रावणस्तुन क्रुद्धो नाश्स्त्रवृष्टि ववर्ष रामं तं रामस्तथा बाणैर्ववर्ष च तदो युद्धमभूद्घोरं तुमुलं लोमघर्षणम् अध संस्मारयामास मातली राघवं तदा विसृजास्त्रं वधायास्य ब्राह्मं शीघ्रं रघोत्तम विनाशकालः यः सुराय सोऽध्य वर्तते न चैतस्य चेत्तव्यं राखवत्वया नैव शीर्ष्णि प्रभोवध्यो वध्य एवहि मर्मणि तदः संस्मरितो रामस्तेन वाक्येन मातलेहे जग्राहस शरं दीप्तम् निःश्वसन्तमिवो रगं यस्य पार्श्वेदौ पवनः फले भास्करपावकौ शरीरमाकाशमयं गौरवे मेरुमन्दरौ पर्वस्वपिच च विन्यस्ता लोकपाला मखौजसः जाज्वल्यमानं वपुषा भादं भास्करवर्चसा तमुग्रमस्त्रं लोकानां भयनाशनमद्भुतम् अभिमन्त्र्य तदो रामस्तं विधिना सन्दधे कार्मुके बली तस्मिन् सन्धीयमाने तु राघवेणशरोत्तमे सर्वभूतानि वित्रे सुश्चचालच चा वसुन्धरा स रावणाय सङ्गृद्धो भृशमानम्यकार्मुकं चिक्षेप परमायत्तस्तमस्त्रं मर्मखाधिनम् सवज्र इव दुर्धर्षो वज्रपाणिविसर्जितः कृतान्त इव को रास्योऽन्यपद्रावणोरसि सनिमग्नो महाघोरः शरीरान्धकरः परः बिभेदहृदयं तूर्णं रावणस्य महात्मनः रावणस्याहरप्राणान् विवेश धरणीतले सशरो रावणं हत्वा राम तुणीरमाविशद तस्य हस्तात् पपाताशु सशरं कार्मुकं महद गदासोर्भ्रमिवेगेन राक्षसेन्द्रोपदद्भुवि तं दृष्ट्वा पदिदम् भूमौ हदशेषाश्च राक्षसाः हदनादा भयत्रस्ता दुद्रुवुः सर्वतो दिशम् दशग्रीवस्य निधनं विजयं राघवस्य च तदो वानरा वानराजितकाशिनः वदन्तो रामविजयं रावणस्य च तद्वधम् अधान्तरिक्षे व्यनदसौम्यस्त्री दशदुन्धुभिः पपादपुष्पवृष्टिश्च समन्दाद्राघवोपरि तुष्टुवुर्मुनयसिद्धाश्चारणाश्च दिवौकसः अथान्तरिक्षे ननृतु सर्वतोऽप्सरसो मुदा रावणस्य च देहोद्धं ज्योतिरादित्यवस्फुरद प्रविवेशरघुश्रेष्ठं देवानां पश्यतां सदां देवा ऊचुरहो भाग्यं रावणस्य महात्मनः वयं तु सात्त्विका देवा विष्णोः कारुण्यभाजनाः भयदुःखादिभिर्व्याप्ता संसारे परिवर्तिनः अयं तु राक्षसक्रूरो ब्रह्महातीव तामसः परदाररथो विष्णुद्वेषी तापसहिंसकः पश्यत्सु सर्वभूतेषु राममेव प्रविष्टवान् एवं ब्रुवत्सु देवेषु नारदः प्राह शृणुतात्र सुरायूयं धर्मतत्त्वविचक्षणाः रावणो राघवद्वेषादनिशं हृदि भावयन् भृत्यैः सह सदा रामचरितं द्वेषसंयुधः श्रुत्वा रामात् स्वनिधनं भयात् सर्वत्र राघवम् पश्युदीन स्वप्ने राम पश्यदी क्रोधो रावणसुरबोधाधिकवद् निखतश्चाते निर्धार रामसायुज्यमेवाप रावणो मुक्तबंधन पापिष्टो वा दुरात्मा परदारेशु सक्तो यदि नित्यं स्नेहा भयाद्वा रघुकुलतिलकं भावयन् सम्परेतः भूत्वा शुद्धान्धरङ्गो भवशदजनितानेकदोषैर् विमुक्तः सद्यो रामस्य विष्णोः सुरवरविनुदं यादि वैकुण्ठमाद्यम् हत्वा युद्धे दशास्यं त्रिभुवनविषमं वामहस्तेन चापं भूमौ विष्टभ्यतिष्ठन्नितरकरधृतं भ्रमयन् बाणमेकम् नेत्र शरदलित वभु आ रक्तोपंद ने शलित बु सूर्यकोटिप्रकाशो वीरश्रीबंधुरांगस्दशपीनुद्पादु मीर राीमद्यात्मणे उमहर संवाद युद्धकांडे एक सर्गहा ओ um.